द्वादशोऽध्यायः ध्यानम् ॐ विद्युत् दामसमप्रभां मृगपतिः स्कन्धस्थितां भीषणां कन्याभिकरबालकेटविलसध्वस्ताभिरासेविताम् हस्तै हस्तैश्चक्रगदाशिखेटविशिकां चापं गुणं तर्जनीं बिभ्राणमनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॐ देव्युवाच एभैस्तवैस्तवां नित्यं तोष्यते यः तस्याहं सकलां बाधां नाशयेष्याम्यसंशयं मधुकैटभनाशं च महिषाश्रघातनं कीर्तयिष्यन्ति ये तद्वन् वधं शुम्भनिशुम्भयो अष्टभ्यां च चतुर्दश्यां नवभ्यां चैकचेतसः श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् न तेषां दुष्कृतं किञ्चित् दुष्कृतोथा न चापदः भविष्यति न दारिद्रं न चैवेष्टवियोजनं शत्रुतो न भयं तस्य दस्यतो वा न राजतः न शस्त्रा नो योभान् कदाचित् सम्भविष्यति तस्मान्मैतन्माहात्म्यं पठितव्यं समाहितै श्रोतव्यं च सदा भक्त्या परं स्वस्तेनम् हितन् उपसर्गा न शेषास्तु महामारी समुद्भवान् तथा त्रिविधमुत्पातम् माहात्म्यं समयेन्मम यत्रैतत्पठ्यते सम्यक् नित्यमायतने मम सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितं वलिप्रदाने पूजायाम् अग्निकार्ये महोत्सवे सर्वं ममैतच्चरितम् उच्चार्यं साध्यमेव च जानता जानता वापि बलिपूजां तथा कृतं प्रतिक्षस्याम्यहं प्रीत्या वह्निहोमम् तथा कृतं शरत्काले महापूजा क्रियतेजा च वार्षिकी तस्यां ममैतन्माहात्म्यम् श्रुत्वा भक्तिसमन्वितः सर्वा धनधान्यश्रुतान्वितः मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयशुभा पराक्रमं च युद्धेषु जायते निर्भय पुमान् रिपवसञ्चयं यान्ति कल्याणं चोपपद्यते नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वतां शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने गृहपीडासु शुग्रासु माहात्म्यं शृणुयान् मम उपसर्गासमं यान्ति गृहपीडास्य दारुणा दुःस्वप्नं च निभिर्दिष्टम् उपजायते सुस्वप्नमुपजायते बालग्रहाभिभूतानां बालानां शान्तिकारिकं सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमं दुर्वृत्तानामशेषाणां वदहानिकरं परं रक्षोभूतपिशाचानां पठनादेवनाशनम् सर्वं ममै ममैतन्माहात्म्यं मम सन्निधिकारकं पशुपुष्पार्घधूपैश्च गन्धदीपैस्तथोत्तमै विप्राणां भोजनैर्होमै प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वः सरेणया प्रीतिर्मे क्रियते सास्मिन् सपिसुचरिते श्रुते श्रुतं हरति पापाणि तथा रोग्रं प्ररक्षति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धे सुचरितं यन्मे दुष्टदैत्यनिबर्हणं तस्मिन् श्रुते वैरिकृते कृतं तस्मिन् श्रुते वैरि कृतम् भयं पुंसां न जायते युष्माभिस्तूयन्तु ययो याश्च याश्च ब्रह्मर्षिभिः कृता ब्रह्मणा कृतास्तास्तु प्रयच्छन्ते शुभां मतिम् अरण्ये प्रान्तरे वापि गावाग्नि परिवारितः जश्चुर्भिर्वावृतशुण्डे शत्रुभिः सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः राज्ञा क्रुद्धि न चाज्ञप्तो वध्यो बन्धगतोऽपि वा आघोणितो वा तेन चितापोते महानवे पतसु चापिषु न ग्रामेऽभि सदारुडे वेदनाभ्यर्जितोऽपि वा स्मरन्मैतच्चरितं नरो मोचेतसङ्कटात् मम प्रभावा सिंहाद्या दस्य वो वैरिनस्तथा दूरादेव पलायन्ते स्मरस्त्वच्चरितं मम परिशिर्वाच इत्युक्त्वा सा भगवती चण्डिकाचण्डविक्रमा पश्यतामेव देवानां तत्रैवान्तरधीयत तेऽपि देवा निरातङ्काः स्वाधिकाराण्यथा पुरा यज्ञभागभुज सर्वे चक्रुर्विनिहतारयः देवत्याश्च देव्या निहते शुम्भे देवारिपौ युधि तस्मिन् महोग्रेतुलविक्रमे जगद्विध्वंसिनी तस्मिन् महोग्रेतुलविक्रमे विशुम्भे च महावीर्ये शेषा पातालमाययो एवं भगवती देवी सान्निध्यापि पुनः पुनः सम्भूय कुरुते भु सम्भूय कुरुते भूपा जगतः परिपालनम् मयैतन्मोच्यते विश्वं सैव विश्वं प्रसूयते सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति व्याप्तं तैतत्सकलं ब्रह्माण्डं मनुजेश्वर महाकाल्या महाकाले महामारीस्वरूपया सैवकाले महामारी शैव सृष्टिर्भवत्यजा स्तुतिकरोति भूतानां सैवकाली सनातनी भवकालीनीनां सैव लक्ष्मीर्वृद्धि प्रदा गृहे शैवाभावे तथा लक्ष्मीर्विनाशायोपजायते सुता सम्पूजिता पुष्पै रूपगन्धादिभिस्तथा ददातिवेत्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॐ श्रीमार्कुण्डे प्राणे श्यामणिके वन्वन्तरे देवीमहात्म्ये फलस्तुतिर्नाम ॐ श्रीदुर्गादेव्यै नमः